स्य धीमहि प्रदेके पूर्वैव वपरथे कामोऽस्मे तमापृणावसुपदेवसूना इमम् कामम् मन्दयागोभिरश्वेः चन्द्रवताराध सुपर्यवो मतिभिस्तोभ्यम् विप्रायाः इन्द्रायवाः कुशिकासो अक्रन् इन्द्रस्य ले यानि प्रवोचम् यानि चकार प्रथमानि वद्री अहम् न हिमन्ववस्तदर्दा प्रभक्षणा अभिरत्पर्वदानाम् अहम् न हिम्पर्वदेशिष्ययानम् पृष्टास्मै वद्रग्स्पर्यन्तदक्षा वाश्रायवथेन पस्यन्दमानाः अञ्जः समुद्रमवजग्मुरापः तृगतृगेष्पत्सुतस्य आसायकम् मघवा दत्तमग्नम् अहं नैणम् प्रथमजामहीनाम् यदिन्द्राहम् प्रथमजामहीनाम् आन्मायिनाम विनाः प्रोतमायाः आत्सूर्य्यामुशासम् तादे नाशत्रोन्न विवित्से अहम् वृत्रम् वृत्रतरम् विपुंसम् इन्द्रवज्रेण महता स्कन्धापुंसी वपुण्डिशे नाविना अधिश्रेत उपृथिव्या अयोध्यैवलाधवृजेषम् नाता समृदिम् वधाना सकुम् वृजानाशत्रुः विश्वा विहाया रतिः हस्ते दक्षिणे नरणशिस्रथत् श्रवश्रिया न शिस्रच्छत् विश्वस्मायितिषुध्यसे देवत्राहव्यमोहिषे विश्वस्मायित्सुकृदेवानमन्वदे अज्ञद्वारा व्यन्वदे उपजिहानाभिकामीलयन् प्रपञ्चन्विश्वाभुवनानि पूर्वपथा आकेतुनाशुरमिध्वभयजिष्ठः कामन्नाग्ने अभिगव्यजिभ्यः जुषाणा हव्यमृजोभ्यः आरायम् बहुलाङ्गोमदेषम् यधे यक्षतमृधेषु भूषन् अश्विना यज्ञमागतम् दाशः पुरुदग्रन्थसा पोषारक्षतु नारयम् इमम् यज्ञमश्विना वर्धयन्ता इमो रयम् यमानाय धत्तम् इमो विषोन्द्रक्षताम् विश्वतो नः पोषाणः पार्श्वरमप्रैच्छन् प्रते महेधरस्पति सुभगे वाजिनेपदे सत्यवाचे भरे मतिम् इदम् देहव्यम् हृतवत्सरस्वती सभरे माहवीरूषे इमानि ते तु सौभगानिभिर्वयम् सुभगामस्याम यज्ञो राजो यज्ञयीशेमसूनाम् यज्ञः सस्यानाम् उदशक्षितीनाम् यज्ञयिष्टः पूर्वजित्तिम् यथा तु यज्ञा इयम् वेदि स्वपत्या सुवीया इदम् परिहरति परिहेयर्षन्या इमे यज्ञम् विश्वे अवन्तु देवाः भग एव भगवागमस्तु देवाः येन वयम् भगवन्तः स्याम दन्ताभगसर्वयज्ञोहवेमि सनाभगपुरगेताभवेह भगप्रणयदर्भगसत्यराधः भगे मान्धियमुदवदन्नः भगप्रणाजनयुगोधिरश्वः भवप्रणृभनिर्बन्धः स्यामा शश्वती समा उपयन्त्य लोकाः शश्वती समा उपयन्त्यपः इष्टम् वो शश्वती नागुं समानागुम् शाश्वतेन अविषेष्ट्वानन्दम् लोकम् परमारोह इयमेव साया प्रथमाभ्य उच्यते सा रूपाणि अपा अन्यागस्तन्तो निरतो ध अन्यान् नापच्याते न गमाते अन्तम् आवोयन्तो दवाहासो अद्या वृष्टि ये विश्वे मरुतो जनन्ति अय्या अग्निर्मरुतः समिद्धः एतञ्जिणध्वङ्गमयायमानः धारावा मरुतो षष्टवो दशः मृगाणभीवास्तविषयभिरोग्भिः अग्नयादशीर्णः ृदेवः आवेधसन्नीलपृष्ठम् बृहन्तम् बृहस्पतिंसदनेदयध्वम् सादद्यमादिवाणमरुषगुंसेव्यपाशेर्षिरस्वृाः बृहस्पतिः स्वाेशरिष्वाः पूर्वतखिर्भ्याङ्करिष्ठः ोरण्यस्तभव्रजे वयम् नरिष्येम कदाचन स्तोतारस्तैरस्पसे या हस्तेऽपोषन्नावो अन्तः समुद्रे हिरण्येरन्तरिक्षे चलन्ते याभिर्यादितोगम् सूर्यस्य कामेन कृतश्रवयुक्षमाणः अरण्यान्यरण्यान्यसौ याः प्रेम नश्यसि तथा ग्रामन्नपुच्छसि न ताभेरिमनिन्दति यदत् यदुपापदि आघाटीभिधापयन् अरण्यानम् वहीयते उत गावयवादन् उतो वैष्णेऽव दृश्यते उतो अरण्यायः सायम् शकटेमसज्जते गा मङ्गयते दार्वङ्कैषमुपापथेरे वसन्नरण्यान्यागुंसायम् आकृक्षति मन्यते नव अरण्यानि लहन्ते अन्यश्च अभिगच्छते स्वादाफलस्य जग्वा यत्र कामन्निपद्यते आञ्जनगन्धे पुंसलभे भगवन्नामगृहे मला प्राहम् मृगाणाम् मातरम् अरण्यानेव शकुंशिषम् वार्त्रहत्याय शमसे प्रतनासा ह्याय च इन्द्रताभर्तयामसे सुब्रह्माणम् वेलवन्तम् पुरुङ्गभीरम् पृथुबुध्वमिन्द्र श्रदर्षिमग्रमहिमादिशाहम् अस्मभ्यम् चित्रम् रयिन्ताः क्षेर्त्रयित्वा निर्त्ययित्वा बृहमुञ्चाविवरुणस्य पाशाच अनागसम्ब्रह्मणे पृथिवीभे शन्ते अग्निः सहाभिरस्तु शन्द्या वा पृथिवेशोषधीभिः समन्तरिक्षकम् सह वातेन ते क्षन्ते चरस्रः प्रतिशा भवन्तो यादे चरस्रः प्रतिशः वादपत्नेरभिचोर्या विचष्टे आसाङ्गाजलसादधामि प्रेक्ष्मये अमो येक्ष्माद्विजा गृहपाशान्निर्वृत्ते चोदमोचे अह आवर्तिमपि दक्षोनम् अप्यभवद्भद्रे सुकृतस्य लोके सूर्यमृतम् देवामुन्नसु जन्मेन सह एवमहमिवंक्षे प्रियाविषपुंसात् बृहो विवरुणस्य पाशात् बृहस्पदे यिवमिन्द्रश्च वस्वः विव्यस्ते शाचे उदपार्थिवस्य भक्तगौ रेव्यस्तुपदे गीरये चे यूयम् पादस्वस्ति विस्तदानः देवायुधमिन्द्रमाजोहुमानाः विश्वाविधमधेय रक्षमाणाः येन हता दीर्घमध्वा न मायन् अनन्तमर्थमानाः त्यक्ते हिमवत्सुजम् मयोपोषन्तमायद्धृतो ततो नेहि जीवने अतो गिरेभ्यकुंशोभमाना कन्ये वशुभ्रे ताङ्गामुद्गलाः विरावर्धयन्ति सान्सीवले रीमाभाजयः ओर्वन्दे वालेनानिपश्यन् जन्मभिः जन्मान्यपराणि वेदानि देवा अयमस्मे इमान् अलकम् हित्वा शरीरम् जलतः परस्ताज प्राणापानो चक्षुश्रोक्रम् पादम् मनजितम् भृता हित्वा शरीरम् जलतः परस्ताज आहूतिम् भूतिम् वयमश्नवामहे इमा एवता वृषतो या प्रथमा व्यरोच्छन् तादेव्यः कुरुदेवम् च नगमन्त्यन्तम् वसूनाम् त्वाधीतेन रुद्राणा मूर्म्या आदित्यानाम् प्रेजसा विश्वेयाम् देवानाम् कृतुना मरुता मेम्नाजहो विश्वाहा अभिभूतिरहमागमम् इन्द्रसखा स्वायुधः आश्वासादृषः जलम् वर्चो अग्निना दत्तमार्गात् विश्वभर्गस्थ वो जोबलम् च देर्घायित्वाय शरशारदाय प्रतिगृहामिदेवीर्याय आयुरचविश्वायुरसे सर्वायुरजर्वमायुरसे सर्वम् आयुर्भूयात् सर्वमायुर्गेदम् भोर्भवस्तुवः अग्रधर्मेणान्नादः वृद्धिर्धर्मेणान्नमजे ब्रह्मक्षत्रग्रस्वाहा प्रजापति अप्रणेता बृहस्पतिः पुरगेता यमः पन्थाः चन्द्रमाः पुनरसस्वाः अग्निरन्नादोऽन्नपतिः अन्नाद्यमस्मिन् यज्ञे यजमानाय ददादस्वाहा सोमो ज्यमस्मिन् यज्ञे विजमानाय ददाद स्वाहा वरुणः सम्राट् सम्राट्पदिः साम्राज्यमस्मिन् यज्ञे यजमानाय ददातु स्वाहा मित्रः क्षत्रम् क्षत्रपतिः क्षत्रमस्मिन् यज्ञे यजमानाय ददाद स्वाहा इन्द्रमबलम् वलपतिः वलमस्मिन् यज्ञे यजमानाय ददाद स्वाहा बृहस्पतिर्ब्रह्म ब्रह्मपतिः ब्रह्मा यज्ञे यदमानाय ददादस्वाहा सविता राष्ट्रगम् राष्ट्रपतिः राष्ट्रपस्मिन यज्ञे यजमानाय ददादस्वाहा ऊषाविषा विषमस्मिन् यज्ञेनाय ददादस्वाहा सरस्वती पुष्टिः पुष्टिपत्नी पुष्टिमस्मिन् निज्ञे यजमानाय ददादस्वाहापशूनाम् विषदानागम् रूपकृद्रूपतिः स्वाहाभर्त्योः इष्ठाः सैन्त्र इन्द्रर्बिन्दुवधे यस्मै पुरोष्मस्मै पुरोरथम् इन्द्रायषोषमर्चत अभिज्ञेलो सङ्गे समत्सुपुत्रः अस्माकम् बोभितो नभन्तामञ्जकेशाकाधिसन्वसो इन्द्रम्भयगुंशुनाधीरम् अस्मिन् यज्ञेह वामहे आवालेरुपमागमने इन्द्रायशु नाधीराय श्रुतायपुतनाहविः ्यानि कृतवन्त्यस्मै हरियस्वायभरदाजोषा आह इन्द्रब्रह्मणा वा प्रधानः सुदाधीरेहविरञ्जिषस्व पयस्वपर्णाकृषयलीन्द्रम् प्रियमेधानाः अबद्धान्तमो वाचक्षुः मोभ्यस्वान् निजयवृद्धान् बृहदिन्द्राय गायता बृतावृत्रहन्तमम् येनो निरजनेन्द्रतावृतः एवम् देवा विरा कामेकाः कमेपदङ्गाः वान्थालाः कुलिपरिमापतन्ति अनावृतेनान् पथमन्तु देवाः सोमर्नञ्चक्षुस्तनुवाविधेय एवावन्दस्त्ववरुणम् बृहन्तम् नमस्याधीन मदस्य गोपाम् शर्मत् लवरु योऽयम् पादस्वस्थ्यस्तदानः नागेतुवर्णमुभयत्पदन्तम् हृदा वेनन्द्वाभ्यजक्षदत्त्वा हिरण्यपक्षम् मरुणस्य दूतम् यमश्रयोनोषवदम्भरण्यम् षण्वेलभिष्टये आहो भवन्तवेदये शय्यारभिश्रवन्तु नः ईशानावार्याणाम् क्षयङ्केश्वरिना अपोयाचामित् अन्तर्विश्वानिभेटजा अग्निञ्च विश्वसम्भवम् आपष्टविश्वभे गोष्पश एनमेवाजिनेपदे या नरस्पदी वैदम्भर्या तस्याम् एया स्म तस्यास्ते भक्षीया अस्यास्ते भूयिष्ठभाग भूयास्म अहन्मदस्ति मदसित्वमेतत् योनिरस्मि ममैव संव्यान्यग्ने पुत्रः पुत्रेलो विषज्ञानेदः विहैव सन्तत्र सन्दर्माग्ने प्राणेन भाचा मनसा मासन्तमाजमा प्रहासीत् दो यात्वा वैश्वानेनोपदिष्टे अयम् तेजो निर्गः यतो जातो यथानन्न ज्ञानोह अथानामर्थयायम् अच्छा े क्रियातनो स्थलेमस्ते यज्ञो भोक्त्वा यज्ञमासीदस्वायवेयमानः सक्षयैः उपागरोहजागवे रः पुनस्तम् देवेभ्युरह्यम् प्रजानन् आयप्रजागम् भजमस्मासुधेः अजस्रवजीर्हि अमिन्द्रम् जहवे तत्रार्थापवर्तने राम् ममा न महाभुवम् सैनकुंसश्च देवः सत्यनिन्दकुम् सत्य इन्द्रः ध्रियः कः अग्रणयच्छुपद्यक्षराणाम् अच्छारवम् प्रसमाजा नदीकाव्यगम् ये नाम् आये विश्वाः स्वपद्रानि चक्रुः कृत्पाय गातुम् कन्दभर्तय देवभूतौ भोरेण वृत्त्वा दे हरि यश्वांसे तन्निकस्विञ्चुमरिम् धुरिम् चास्वापयोपेतये सुहन्तो एवापाहे एवापाहि प्रत्तथामन्ददत्वा अपामीवापरक्षान्ति तस्मात् समुद्दापा भोवानपासृदयः यज्ञप्रतिष्ठा वसोनिपुरुधान्त दीर्घमाय विजमानानि कर्मान् अथमृते इन्द्रः शुनावद्योधीरम् संवत्सरस्य प्रतिमानमेतत् अर्कस्येष्ठम् संवत्सरकम् शुनवत्सीरमेतत् इन्द्रस्य दासप्रयतम् पुरुत्महा तदत्ररूपम् विमानमेते द्वादशारे प्रतिष्ठते दृढाः अश्वायन्तो गम्यन्तो मारयन्तः हवामहे त्वोपगन्धवाहो आहोषन्दस्पासु मतो नमाया वयमिन्द्रस्त्वाशु न कुम्भुवेम ओ स्वाद्मीन् त्वा स्वादुनाः एव्राम् एव्रेण अमृता अमृतेन मधुमते मधुमता सृजा निषगुम् सोमेन सोमा षष्ठिभ्याम् वचस्व हरस्वर्ते वचस्व इन्द्राकृताम्ने वचस्व षिम् च दासुतम् स्वमायोः पुराजिरेश्रितम् स्वपुंसौर्येण शश्वत्रेण रान्त्रतः इन्द्रश्रयुजः सखाः बायःपोधः पवित्रेण प्रत्यान् स्वमानिद्रुतः इन्द्रश्रयुजः सखाः ब्रह्मक्षत्रम् पवदे ते जन्द्रियम् सुरयासोमसुता सुतोमदाय श्रुतेन देवदेवतात्मवृद्धे अजेनान्न यजमानायधेः च यथापूर्वम् वियूयभोजनानिर्न जहेतोशस्पृभ्याम् पारष्टम् गृह्णामि सरस्वत्या इन्द्रायश्रुताम्ने एष तेजोस्तेजशयत्वा वेर्यायत्वा बलायत्वा तेजोसितेजोमयिधेः वेर्यमतिवैर्यम् वैधेः फलमधितकम् सदः कृतम् मादकम् सुक्षाखाम् परमेऽ्योमन् सुरात्त्वमति दुष्मणे मेजः मामाभिंसे स्वायोनिमाविषन् उपयामयितोस्यान् तेजः सारस्पदम् वीर्यम् ऐन्द्रम् वरम् एजतेजोजम् मोदायत्वा आनन्दायत्वा महधेयत्वा ओचोऽस्योचो जो मैथेः मन्यदु मन्यम् मैधेः महानिमहोमैधेः सहो निमहो मयिधेः या व्याघ्रम् शोचिका उभौ वृगम् च रक्षति शयनम् पदत्पनगुंशुम्भाम् सेमम् पात्रगुम्भदः संवृजस्थम्मा भद्रे वृन्ता ृत्यम् हृदय सत्यमिन्द्रियम् शुक्रमंसः इन्द्रस्य इन्द्रियम् इदाम्बयो छन्दसांसस्वृदय सत्यमिन्द्रियाम् अद्भ्यः क्षेरम् व्यपदे सत्यमिन्द्रियाम् अन्ना परिवक्षत्रम् हृदयेन सत्यमिन्द्रियम् हेतोत्रियम् प्रजापतिः हृदयेन सत्यमिन्द्रियम् सोमेन सोमो सुधा सुतो प्रजापतिः ततेन <Sess> सत्यमिन्द्रियम् दृष्ट्वा व्याकराद सत्यालते प्रजापतिः अश्रद्धापजेदधादे श्रद्धाकम् सत्य प्रजापतिः ततेन सत्यमिन्द्रियम् दृष्ट्वा पयश्च तोरसम् शुक्रेण शुक्रम्य विपदे पयः सामम् प्रजापतिः तदेन सत्यमिन्द्रियम् विपानकम् शुक्रमन्धरः इन्दस्येन्द्रियम् सुरामन्दम्बरहितम् सुरीरम् यज्ञमुन्वन्दिमहितार्गा यस्तेदस्सम्भृतवोढदेश सोमस्य सुष्मसृतस्य तेन जन्म इलमानम् मदेन सरस्वतीमश्विनाविन्द्रमग्नम् यमश्विनानुमुचेना सुरा सरस्वत्यसुरान्द्रियायन्त शुक्रम् मधुमन्दमिन्दुम् सोमघुं राजानविलभक्षयामिनः श्रुतस्य यदिन्द्रा आङ्गेन सोमघुं राजानविलभक्षयामिभ्यः विरामहेभ्यस्पधामिभ्यस्पधा नमः विरामहेभ्यः अक्षन्वितलः अमे मदन्तवितलः अरेतवन्तवितलः अमे मजन्तवितलः वितरशृन्ध्वम् परन्तु मातरः सोऽन्यासः पुनन्तु मातामहाः पुनन्दप्रमिदामहाः पवित्रेण सदायुधा पितामहाः पुनन्दप्रविदामहाः पवित्रेण सदायुधा विश्वमायव्यश्नै अज्ञायोगम् शिवपशेस्व पवमानस्वर्जनः पुनन्तु मादेव जनाः गाधवेन पवित्रपद्यते पवित्रपत्तिः ैश्वरदेवी पुनती एष मानाः समनसः राज्ये लोकस्वधा नवः यज्ञादेवेषु कल्पदा येषाताः समनसः देवा देवेषु मामकाः एषा कृष्णे वै कल्पदा अस्मिन् लोके शतकम् समाः द्वे श्रेण अहम् देवानामुदमर्त्यानाम् याभ्यामिदम् विश्वमे रत्समेते इदम् तरामितलम् मातरम् च विदगम् हविप्रजनम् मे अस्तु दशवेदकम् सर्वगणग्रस्वस्तये आत्मसनिप्रशासने पशुसन्न्यभयसनि लोकसने अग्न्यप्रजाम्बुनाम् मे करोतु अन्नम्बयोरयतो अस्मात्ता रायस्पोषमिणमोग्नमस्तारत्साः श्रीधेरन्त्रकर्मः ओर्णा सूत्रेण कवया वयन्ते अश्विना यज्ञगं शिता सरस्वती इन्द्रस्य लोपम् वर्णोऽरज्यन्यस्य लोपम् त्रिश्रोतशर्देवताः सगमुनाः रोमानुच्येगस्य भागम् सम्भवर्णराजाः रुद्रवर्तने हरस्पदी वै दिवेषो कालोत्तरेण दशतो भगवान् सरस्वती मनसा पेश नाशसम्बवः परिश्रुतानलोहितम् अर्जवद्धेरस्तसर्णवेम अयथा शुक्रपदम् नेत्रम् सुरजामोत्राजनयन्तेर्मदिम् बाधमानाः ओमभ्यम् वाचकम् सभुपन्तदात् इन्द्रः सुप्रामाहृदयेण सत्यम् आसन्देनाभिन माताम्भोक्षत्रिताशेन्न क्लेशः व्यक्तश्रद्धात्सः धाम् विरुभ्यः मुखकुंसदस्य पवित्रमश्विनाथकम् धनस्पतिन्नपायुर्भिडकस्य बालः अस्यन्न चेत् अश्रुभ्याम् चक्षुरमसङ्ग्रहाभ्याम् पक्ष्माणि गोधो मेलेरुतानि पेषोक्लमसाज अनमेजोनिधिवेर्याय प्राणस्य पन्थामृतो ग्रहाभ्याम् सरस्वत्यववागेर्ज्ञानम् नस्यान् परिहद्बदरेर्द इन्दस्य लोकोहराय कर्णाभ्याश्रोतृमृतङ्ग्रहाभ्याम्बद्धुविकेधराणि कर्कन्धुरज्ञे मधुरा रघम् मुखान् आत्मनुपस्थयनवग्रहस्य लोमा मुखे श्वश्रोणि नव्याद्रलोमम् आत्मानमङ्गैः समधात् सरस्वती इन्द्रस्तकं शलमानवायो चन्द्रेण ज्ञोजलमदम् दधाना सरस्वतीयोन्याम् गर्भवन्तः अश्रुभ्याम् पत्नी सुकृतम् विभक्ते अपाकम् रथेण वरुणो नम्ना इन्द्रज्ञश्रये ते जनेन्नप्सुराजाः तेजः पशो नागम्भवेन्द्रियावदे वयस्तुता वयसा रघम् अथ अश्रुभ्याः दुग्धम् भिषजात स्मर्जातासुताभ्याः अमृतस्वामयिन्दुः मित्राविमरुणाशे समहम् मिश्रेय रेवेः क्षत्रस्य नाभिरसे क्षत्रस्य योनिरसे शोनामासेन सुषदामासीद महात्माहिंसे मामाहिगंसेन इणदार्थवर्णः अस्त्या स्वा साम्राज्यायशुक्रदुः देवस्य अश्विनाग् बाहुभ्या ओष्णास्ताद्भ्याम् अश्विनाग्भैरजेन ब्रह्मवर्त्रसा याभिरिजिञ्जामि देवस्य दासविनः प्रथवे अश्विनाग् बाहुभ्याम् ओष्णास्ताभ्याम् परस्मत्तेभैषद्येन वीर्यायान्नाद्यायाभिरुमि देवस्य नाशवितः प्रथमे अश्विना बाहुभ्याम् ओष्णोहस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रीयसेफलाय अभिरुञ्जामि कोविल नमोभिः तस्मै मङ्गला सत्यराजाः यशोमुखम् तु शक्यसा च श्मश्रूणि राजाने प्राणामृतम् सम्राचक्षुः विराक्षोत्रम् जक्वामे भद्राम् वाङ्महः मनोमन्यः स्वराग्भावः मोदाः प्रमोद अङ्गुलेरङ्गाणि चित्तम् मे सह बाहो मे फलमिन्द्रियम् हस्तौ मे कर्म वीर्यम् आत्मा क्षत्रपुरोम पृष्टेर्मे लाष्ट्रमुदरमपुंसौ देवाश्च स्रोऽन्योः ऊरु अर्त्री जानुलीशो मेऽङ्गाणि सर्वदः नाभिर्मे चित्तम् विज्ञानम् वायुर्मे परिदर्भसज आनन्दनन्दापाण्डौ मे भगः सौभाज्ञम्पसः जङ्घाभ्याम् पद्भ्याम् धर्माोऽस्मि विशिराजा प्रतिष्ठितः प्रतिक्षत्रे प्रतितितितितितितितितितितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितितितितितितितितितितिष्ठामि कोष प्रत्यङ्गेषु प्रतितितितितितितितितितितिष्ठाम् ज्ञान् प्रतिप्राणेषु प्रतितिष्ठामि पुष्टे प्रयत्यावामि सरीयोः प्रतिष्ठामि यज्ञे त्रया देवा एकादशा त्रयस्य पुंशासुराशदः बृहस्पतिपलोहिताः देवस्य च वितः समे देवादेवेन वन्दुमा प्रथमा द्वितीयैः द्वितीया तृतीयैः तृतीया सत्तेन सत्यै यज्ञेन यज्ञोयुजद्भिः यजोगुंशामभिः सामान्यः त्रिजोयाज्याभिः याज्ञा वषत्कारैः वषत्काराहुदिभिः आहुदयोमेका मान् समर्थयन्तो भो स्वाहा लोमाणिप्रेतन्म त्वम् मानजजागदिः पाकंसम् उपणतिः बस स्वस्ते मज्जामाहनदिः यद्देवादेवहेलनम् देवादश्च दे देवा कृपा वयम् अज्ञम्मादस्वादेन सह विश्वानाम् त्वगंहसः यदि भायदिनक्तम् एनाकुंसि च क्रमा वयम् वायम् मादस्मादेन सह विश्वान्मुञ्जत्वगुम्मदः यचाद्य स्वप्ने एनाकुंसि च क्रमा वयम् सूर्यमादस्मादेन सह विश्वान्मुञ्जत्वगुम्वदः यद्ग्रामे यत्सभाया यदिन्द्रिये यच्छोत्रे गदर्ये येनश्च क्रमा वयम् यदेकस्याे विषमानहे रतो वर्णनामुञ्च अववचनजङ्कुणुण अवदेवैर्देव कृतमेनो या अवमत्यैर्मत्यकृतम् पुरोहि सुमित्राणावयः सन्तो दुर्मित्रास्तस्मै भूयासुः यो स्मारन्द्वेष्टे प्यञ्च वयम् दुष्मः नृपदादिवेन्ममुजानः छात्रे मनादिव भूतम् वाज्यं आपश्यन्धन् दुमेन सह उद्भयन्तमचस्पदे पश्यन् द्वाज्योजरुत्तरम् देवन्देवत्रासौर्यम् अगन्मज्योजरुत्तमम् हृदयितो वरुणस्य पाशः प्रत्यस्त्ववरुणस्य तेजोधितेजो मयुधेः भगवान्वचारिषम् रथे रथमलक्ष्महे अयस्वागमग्नागमम् तमासगं सजवर्तसा प्रजया जधनेन च समापवर्त्यपृथिवे स मृषाः समसूर्यः समविश्वमिदम् जगदे अयिश्वानरजोर्भोयासम् विभङ्गामन्यष्णवे भो स्वाहा भोतायक्रमिधेन्द्रमिणस्पदे <Nas>, नाभापृथिव्याधिमस्मान् समिभ्यते वोधिष्ठस्वरिषनेधहान् वेत्त्वाद्यस्य होदर्यज होदायक्षत्रनोऽनपादम् भोजिभिर्देतारमपराजितम् इन्द्रम् देवकंसुमर्पितम् अतिभिर्मसुमक्तमेः न रासुंसेन तेजसा वेत्त्वाजस्य होदर्यज होदायक्षतिराभिन्द्रमेडितम् आजुक्वानममर्त्यम् एवो देवेः सवेर्यः वज्रहस्तपरन्वरः वेत्त्वाद्यस्य होदर्यद भोदायक्षद्बलेन्द्रनिषद्वरम् प्रभन्नर्यापदम् वसुभेरुद्रेरा यत्तेः प्रयग्भ्येत्त्वाद्यस्य होदर्यज होदायक्षतो जोनवीर्यम् सो द्वारेन्द्रमवर्धयन् सुप्रायणाश्रयन्तावृतावृधः द्वारेन्द्राय मेढुले वियन्त्वाजस्य होदर्यय पोतायक्षतुषेन्द्रस्य धेनो श्रुतुहे वातरौ महे स वातरौ न तेजसे वत्समिन्द्रुमवर्धना वेदामाजस्य होदर्य पोतायक्षदेव्या होदार भिरजातखाय अविजेन्द्रम् भिरज्जनः इन्द्राय हैन्द्रियम् वेदामाजस्य होदर्जन पोतायक्षत्तिस्रो देवेः त्रयत्रधालवदः इडाधनस्पदे भारते मरेन्द्रमत्रेलहविष्पतेः वियन्त्वाजस्य होदर्जन पोतायक्षत्रष्टारविन्द्रम् देवम् भजगम् श्वेजङ्घदश्रियम् पुरोपकम् सुरेन्द्रहम् सुरे मघवनिम् इन्द्रायत्तष्टादश इन्द्रियाणि वेदत्वाद्यस्य होदर्जन भवताय षद्वनस्पतिम् श्रवितारकम् षडकृतम् धियो जोष्टारमिन्द्रियम् मध्वासमञ्जन्मतिभिः सुखेभिः श्रुताव्यम् वसुराधृतेन वेत्त्वार्यस्य होतर्यज भवताय क्षलिन्द्रस्वाहाद्यस्य स्वाहा मेधसः स्वाहा श्लोकानाम् स्वाहा स्वाहा कृतेनाम् स्वाहा हव्यशोक्येनाम् स्वाहा स्वाहेन्द्रगुम्भोत्राक्षाणाः इन्द्राद्यस्य वियन्तो भोतर्य समिर्भेन्द्रपुरुषधामीके पुरोरुचा पूर्वषत्वा वृधानः त्रिषद्देवे त्रिंशदावृद्रबाहो यघानवृत्तम् वितलोपवान न राशगम् सप्तदिशो गोभिर्वभावान्पथुरागमञ्जन् हिरण्यैश्चन्द्रे च निजेताः एतो देवेर हरिवायुमभिष्टिः आयत्वाना हविषाशद्धमानः पुरन्तराखपालमद्रबाहुः आयाति विद्यमुखना युषाणः युषाणा परिहरहरिहान्न इन्द्रः प्राजेन कुंसीरत्प्रदिशापृथिव्याः उव्यजाः पथवानव्यस्वान् आदित्ये रक्तम् इन्द्रम् तुलकवश्योपमानाः विषानयद्विनयसुपत्नेः द्वारो देवे रभितो मिश्रयन्ताम् श्रीरावीरम् प्रसमानामहोभिः चासा रक्ताहति गृहन्तम् पयस्पतिसुघेशो रविन्द्रम् पेशस्पति तन्तुना संज्ञयन्ती बेवासु लुक्मे तये व्याभिमाना मनसा पवित्रा रान्द्रम् प्रथमा सुभाजाः ओर्ध्वनि यज्ञस्य मधुराजेन्द्योदकहविषावधानः रिस्वदेवे हविषावर्धमानाः इन्द्रन्यषाणाभिवर्णवत्नीः अर्चिन्नन्तम् त्वम् वयसा सरस्वते या देवे भारते विश्वतो भक्तिः कष्टादधम् अपाकौ योणे कृषायम् कृषणम् भोरेनाः मोर्धनयज्ञः समर्तृदेवान्वदृष्टोनपाशेः मन्यासमञ्जंसमितानदेवः इन्द्रस्य हव्यैर्गनम् मृणालः पुरादिहव्यम् मधुना धृदेन शोकानामिन्द्रम् पुरिशोरीन्द्रः भक्तुरान्धुना हव्यवृन्दन् मूर्धनयज्ञस्य निरता स्वाहा आदर्शनिप्राविवेशजन्माः रघुम् सत्यमित्यन्नत्वागुम् अन्यो अस्ति इन्द्रदेवो नयिम् परिशया न मन्नः अवादृशोद्रम् इन्द्राभरदक्षिणे नाम अजः सिन्धो नाम च देवतेना स चैव समधिथाद्यम् नमस्मयेक्षत्रम् च नानाडिम् दत्तव्यम् हर्षाजनाधानः प्राहिसूर्येण राजेन स्वपत्यानिषेधाः देवम् बर्हिरिन्द्रपुंसदेवम् वसुमने मधुधेयस्य विद्वालिन्द्रम् सङ्घाते वैद्वेयन् आवत्सेन तरुणेन कुमारेण धे नितारन्ताम् वसुमने मधुधेयस्य अभियन्त्रेण देवे उषा सानक्ता इन्द्रयज्ञे प्रयत्येताम् देवे उषः प्रायाशिष्टाम् सुप्ते सुषिजे अभूताम् वसुमने मधुधेयस्य वेदायण देवे लोष्टे मधुषिणे देवमिन्द्रममवर्धनाम् अयाव्यन्याघाद्वेषागुंसि आन्यावाः क्षेत्रसुमार्याणि शिक्षिके वसुवने मधुधेयस्य वेदाय देवे दे मोर्जाहुते दुघे ऋदुघेन्द्रमर्धनाम् विषमोर्जमन्यावाः क्षेत्र सिम् समे तु मन्या नवे नवोर्वन्दयमाने पुराणे नवम् अथा धामोर्जभोर्जाहुजैव सुमार्याणि यजमानाय शिक्षिते वसुवने मृधेयस्समेता देवादेव्याहोतार देवमिन्द्रमवर्धता अतः हृदकम् धावाभाम्बसुमार्याणि यजमानाय शिक्षितौ वसुवने मधुधेयस्य वीधान् च देवेस्तिस्रस्तिस्रो देवीः परिन्द्रमवर्धयन् अस्पृक्षद्भारदेवम् वृद्धैर्यज्ञकम् सरस्वतीसुमतीर्विधान् वसुवने वसु मधुधेयस्य वियन्तुविज देवैन्द्रवनराशगुंसः केवलोचस्तिवन्धुरः देवमिन्द्रमवर्धयदे शरेण च पृष्ठा नामाहिनः सहस्रेण प्रवर्तते नेत्रावरुणेदस्य होत्रमरिहदः बृहस्पतिस्तोत्रम् अश्विनाध्वर्यवम् वसुवने मधुधेयस्य वेदुविजा देवेन्द्रवनस्पतिः हेन्द्रवन्मधुधाकस्वपिलः देवेन्द्रमवर्धयन् प्राय आन्तरिक्षम् पृथिवेव वसुवने मधुधेयस्य वे द्विजा देवम् हरिहवादीणाम् देवेन्द्रमवर्धयत् साहस्थमिन्द्रेणासन्नम् अन्या बहे शभ्यभो असुमेव देवो अग्निस्पृष्टकृते देवमिन्द्रमवर्धयते स्पृष्टम् कुर्वान् स्पृष्टकृत ष्टमद्यः असुमेव